ुद्ध ब्रह्म परात् पर राम कालात्मक परमेश्वर राम शेसतल्प सुख निद्रित राम ब्रह्माद्यमर किरण कुलमण्डन राम श्रीमद् नन्दन राम कौसल्ला सुखवर्धन राम विश्वामित्रप्रिय धन राम भोरताटकाघातक राम मारिचादिनिपातक राम कौशितमख संरक्षक राम श्रीमद् कालोद्धारकराम गौतममुनि सम्पूजित राम सुरमुनि वरगण सुतराम मृदुपद राम मिथिलापुरजनमोहक राम विदेह शम्भककारमुकभञ्जक सीतार्पितवरमालिकराम। सीतार्पितवर मालिक श्रीमदयोध्या पालक राम सुत ब्रह्म परा पर राम कालात्मक परमेश्वर राम राकाचन्द्र समान राम पितृवाक्याशितकान राम प्रियगुहविनिवेदित पद राम प्रक्षालित निज मृदुपद राम भरद्वाजमुखनन्दक राम चित्रकुटादिनिकेतन राम दशरथ सन्तत चिन्तितराम् कीर्तनयार्थित राम विरचीर्तन जपित कर्मक राम भरतार्पितन जपादुक राम शोध ब्रह्म परा पर राम आलात्मक परमेश्वर राम दण्डकवन जन पावन राम दुष्ट विराध विनाशन राम शर भङ्ग सुते क्षण अर्चितराम अगस् चुग्रहवर्जित राम देधाधिपसंसेवितराम पञ्चवटी तट सोषित राम सुर्पण कार्तिविधायक राम हर दूषणमुखसूदक राम थीता ता सुगराम पिल सीतान्वेषकराम वृद्धाधिपगतिदायकराम तवरी दत्तफलासन राम कबन्ध माघुक्षेदकराम हनुमसेवित निजपद राम न त सुग्रीवा विशतराम गर्वित बालिसंहारकरां वा नरदूतप्रेषकराम भूषदशाद दूषितराम चेष्टकरूपदभूषितराम हेता वेदितकवनराम रावण निधन प्रसितराम वारसैन्य समावृतराम तोषितसरिदिर्थित राम, राम।, राम। विभीषणा भयदायक पर्वत सेतुनिबन्धक राम ॐ कर्णशिर राक्षस सङ्गविमरक राम अयि महि रावण अभिषे त विभीषण नत राम पुष्प कया नारो घण राम भरद्वाजा बिन्वेषण राम भरत प्राण प्रिय कर राम शाकत पूरी भूषण राम सकल से समानत राम लसत्पीठासीतराम पटभिषे पार्थिवकुलसम्मानितराम विभीषणार्पितरङ्गकराम सकुलानुग्रहकर राम समस्तलोकाधारक राम धोध ब्रह्म परात् पर राम कालात्मक परमेश्वर राम आगत मुनिगण संस्तुतराम विसुतदशकण्ठोद्भव राम सीतालिङ्गननितराम नीतिसुरचित जनपद राम विपिनत्याजित जन कज राम कारितलमणा सुरवद राम स्वर्गत शम्भुक संस्तुतरां स्वतनय कुशलवनन्दितराम् अश्वमेध काला वेदित पद आजो आयोजक जन मुक्ति धराम विधिमुख कराम तेजो मय निज रूप कराम संस्कृति बंध विमोच कराम धर्मसापन तत्पर राम भक्तिपरायणमुखित राम सर्वचराचर पालक राम सर्वभवामय वारक राम वैकुण्ठालय संस्थित राम नित्यानन्दपद सितराम राम राम, राम जय राजा राम राम राम जय सीताराम राम राम, राम राम जय राजा राम राम राम जय सीता राम राम राम जय राजा राम राम राम जय सीता राम जय सीता राम जय राजा राम राजा राम जय सीता राम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 ब्रह्म परा पर राम कालात्मकपर हर मङ्गल न शरथरा जय जय मङ्गल सीतारा भैया हरमंगला ऐतराते राम जय जय मंगला ऐतरा राम मंगल कर जय मंगला राम मंगलत शुभ वे भवोदय राम आनन्दा मृतव शकराम आश्रितव शल जय जय राम रघुपति राघव राज राम पति ताव रघुपति राघव राजा राम पतित राम। पति त पावन सीतारा रघुपति राघव राजा राम पति तावन सीतारा भय हर मङ्गल दशरथ राम जय जय मङ्गल कर जय मङ्गल राम सङ्गत शुभवि भवोधय राम आनन्दा मृतवस् आश्रितवसन जय जय राम रघुपति राघव राजा राम पति तावन सीता राम रघुपति राघव राजा राम पति तावन रघुपति राघव राजा राम पावन सीता राम रघुपति राघव राजा राम पति तावन सीता राम रघुपति राघव राजा राम फति सीता राम रघुपति राघव राजा पति तावन सीता राम भय हरमङ्गल दशरथ राम जय जय मङ्गल चे तार कां बर कला जन काल धम मुनिमानस भो कम्बरकं मला शरणा यत सूरनायकर कामीस काम धरी राम पर न कंभर कमलाशन तेषितासन वरिता वरद जगद आनंद राम कुशिकात्मज मखरक्षण चरिताभुत राम कर कम्बरमला धनि गौतमीश्वज दघमोचन राभ मुनिमण्डल बहुमानि तद पावन राम कनकाम्बर कमलाच्छन सुशरासन लघु भञ्जन राम नर निर्जर जनरञ्जन कन राम कनकम्बर kamalasan kusumayudh anu sundara kamalanan ramam वसुमानित त्रिगुसम्भव पद मर्जन न राम कमलासन करुणारसरुणलय न तवसल राम शरणं तव चरणं भव हरणं मम राम शरणं तव चरणं भव हरणं मम शरणं तव चरणं भवं मम ताभ शरणं तव चरणं भवं भवं मम ताम शरणं तव चरणं वरणं मन काम्बर कमला शर जनकारमला आपदामपहर्तारं दातारं सर्वसम्पदां लोकाभिरामं श्रीरामं भोज भूयो नमाम्यहं रामाय रामचन्द्राय रामभद्राय वेदते रघुनाथायनाथाय सीताया पतये नव अतुलितबलधामं स्वर्णशैलाभदेहं धनुजवनप्रसारणं याणिना बग्रगण्यं सकलगुणनिधानम् वानराणामधीषम् रघुपतेवरदूतं वातजातं दबादि गोष्पदी कृतवारिषम् मशकीकृतराक्षसं रामायणमहाबालारत्नम् वन्दे लीलात्मरम् अञ्जनानन्दनं वीरं जानकी शोकनाशनम् ऋकपि समर्थहन्तारम् वन्दे लङ्का भयंकरम् उल्लङ्गन्धो चलिलं चलिलं यशोकमह्निं जनकात्मजायाम् आदायते नैव ददाफलङ्कां न माभितं प्रा जलिलाञ्जेयं मनोजवं मारुततुल्यवेगम् यतेन्द्रियं बुद्धिमतां वरिष्ठं वातात्मजं वा नरयूतं मुख्यं श्रीरामदूतं शिरसारवामि आञ्जनेयमतिपाटलाडनं काञ्चनाद्रिकमनीयविग्रहम् पारिजाततरुमूलवासिनं भावयामिपमाननन्दरं यत्र यत्र कृतं रघु रघुनाथकीर्तनं तत्र तत्र कृतमस्थकाञ्जलिं वा स्पवारि परिपूर्णलोचनम् मारुतिं नमतरा चान्तकम् इति अष्टोत्तरसतनाम रामायणं समातम् एतनि दिनतिरघुनन्दनसे दुःखद्वन्द्वह मा रोमिता भोजे ीतनि बिनगुणे दुखगन्धारो मिताबोजे निज पद पङ्कज पिञ्जरमे निज पद पङ्कज पिञ्जर मे चिहंसारिबोजी इली बिनति रघुनन्दनसे हमारो मिटाबोजी तुलसी दास कहे करजोरि बसागर पार उत जी तुलसी दासे करजोरि बागर पार उत जी बब पार उत जी बागर पार उतारो जीनिर्घुनन्दन से हमारो मिताबो जी हमारो मितावोो जी दुखद्वन्द् मिटाबो जी इगुणे दुखद्वन्द्हारो जी निज पद पङ्कज पिञ्जर मे चिघंसारिबो जी चिघंसारो जी चित्घंस मिटाबोजे इ गुणन्दन से दुखद्वन्द्वारो मिताबोजे दुखद्वन्दारो मिताबोजे दुखद्वन्दारो मिताबोजे इनि दिन अतिरघुनन्दन से दुखबन्धारो जी तुलसीद कहे करजोरी बागर पार उत जी बवसागर पार उतो जी भवसागर सागर पार उतो जी इतन विनति रघुनन्दन से दुखद्वन्न्दारो जी इ विनति रघुनन्दनसे दुखद्वन्दारो जी इ बिनति से दुखद्वन्द्माोमि इ तनि बिनति रघुनन्दनसे इ बिनति रघुनन्दनसे दुखद्वन्दोमि बुजी जय श्री राधाचन्द्र जै जै जै जी की जय श्री सीता मय की जय पवनपुत्र हनुमान की जय जै जय श्री गुरु महाराज जी की जय जय मह की जय जय स्वामी जी महाराज जी की ज जय गंगा माई की जय